तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरु द्वः बभूवुरनतिग्राह्या योषित छन्दतः किल एवमग्निर्वरं प्रादात् स्त्रीणामप्रतिवारणे वरिण्यस्तत्र नार्यो हि यथेष्टं विचरन्त्युत वर्जयन्ति च राजानस्तत्पुरं भरतर्षभा भयादग्निर्महाराजा तदा प्रभृति सर्वदा सहदेवस्तु धर्मात्मा सैन्यम् दृष्ट्वा भयार्दितम् परितमग्नि नाराजन्नाकम्पतयथाचलः उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकम् ततः सह देव उवाच त्वदर्थोऽयम् समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते मुखं त्वमसि देवानां यज्ञस्त्वमसि पावका पावनात् पावकश्चासि वहनाद्धव्यवाहनः वेदास्त्वदर्थं जाता वै जातवेदास्ततोह्यसि चित्रभानुः सुरेशश्च अमलस्त्वं विभावसो स्वर्गद्वारस्पृशश्चासि हुताशोज्ज्वलनः शिखि वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरि तेजसः कुमारसुस्त्वं भगवान् रुद्रदर्भो हिरण्यकृत् अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे पृथिवी बलमादध्यात् शिवं चापो दिशन्तु मे अपाङ्गर्भमहासत्त्वा सत्वा जातवेद देवानां मुखमग्ने त्वम् सत्येन विपुनीहि माम् ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि नित्यं सुहृतयज्ञेषु सत्येन विपुनीहि धूमकेतुः शिखी च त्वम् पापः निलसम्भवः सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया तुष्टिम् पुष्टिम् श्रुतिम् चैव प्रीतिम् चाग्ने प्रयच्छ मे वैशम्पायनुवाच रद्धिमान् सततं दान्तः सर्वपापैः प्रमुच्यते